हरि ओम् श्री सीतारामचन्द्राभ्या नमः अत श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे द्वादशे सर्गः कुर्या परिरक्षणाय सैनिकानां नियुक्तिः सीतायाम् स्वीयाम् आसक्तिम् प्रतिपाद्य रावणेन तस्याहरणप्रसङ्गस्य वर्णनम् भावि कर्तव्यनिर्णयाय सभासत्सम्मते प्रार्थनम् कुम्भकर्णेन रावणम् निर्भस्य समस्त शुवधमा वध भारत स्वयम सता पलिशम करीक्ष जय हे प्रचोदयामास तहस वाइनी पति सेपते यथा स्यु कृत विद्या चतुर्विध योध नगर रक्षायाद अर्सी स प्रहस्त प्रणीतात्मा चिकेचन राजशासनम् सर्वं बहिर्यन्त च मन्दिरे ततो विनीक्षिप्य सर्वं नगरगुप्तये सहस प्रमुखे राज्ञो निशसाद जगाद च विहितं बहिर्यन्त च बलं बलवतस्तव कुरुष्व विमलाक्षिप्रम् यदि यदभिः प्रेतमस्ति ते प्रस्तस्य वच श्रुत्वा राजा राज्य हितैषिणः सुखैसु सुहृदा मध्ये व्याजहारः श्रावणः सुखे दुःखे लाभालाभे हि धर्म कामासकुजलेषु योऽयम् अर्हत वेदितुं सर्वकृत्यानि युष्माभिः समारब्धानि सर्वदा मन्त्र कर्म नियुक्तानि न जातु विफलानि मे स्व सोमग्रहनक्षत्रै वासव भवद्भिः मत्यर्थं कृत श्रियं वाप्नुयाम् अहं तु खलु सर्वान् वय समर्थयितुमुद्यतः कुम्भकर्ण्यस्य तु स्वप्नान् नेमम्भर्थम् अचोदयम् हि सुप्तः षण्मासान् कुम्भकर्णो मह बलः सर्वशास्त्रभूताम् मुख्य स इदानीम् समुत्थितः इयं रक्षोभि चरितो आनीता जनकात्मजाय सा मे न शय्यामारोढुम् इच्छति अलस गामि त्रिशु लोकेषु चान्यामे न सीता सदृशी तथा तनुमध्या पृथुश्रोणी शरदिन्दु निभनन हेम बिम्ब निभा सौम्य मायेव मयि सुलोहित सुलोशलक्ष्मौ चरणौ सुप्रतिष्ठितौ दृष्ट्वा ताम्र नखो तस्य दीप्यते मे शरीरजहे हुताग्ने अर्चसङ्काशाम् एनां शौरिम् इव प्रभम् उन्नतं विमलं वल्गु वजनं चारुलोचनं पश्चान्तरवचस्तस्य कामस्य वच मेयिव क्रोधः च समानेन दुर्वर्णकरणेन च शोकसंतापनित्येन कामेन कलुषीकृतः साधु संवत्सरम् मामया चतभामिने भामिनी भर्तारं भर्तारम् तन्मया चारुनेत्राया प्रतिज्ञानं वच शनों हम सततम काम्य ध्वनि कथम सागरम्क्षोभ्यम तरह वनोकूसा किशरथात्मज अथवा कटम न कदम भेद दुर्ने कार्य गु यस्य युषा नो यं नास्ति तथापि तु विमृशता सदा सुरे युद्धे युष्माभि सहितो जयं ते मे भवन्तश्च तथा सुग्रीव प्रमुखान् हरिन् परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजो सीताया पदवीं प्राप्य सम्प्राप्तो वरुणालयम् अदय्या च यथा सीता स्वध्यो दश रथात्मजो भवद्भिः मन्त्रताम् मन्त्र चाभिधीयताम् न हि शक्तिम् प्रपश्यामि जगन्त्यन्यस्य कस्यचित् सागरम् वा नरेति त्व निश्चयेन जयो मम तस्य काम परितस्य निशम्य परिदेवितं, कुम्भकर्ण प्रचुक्रोध वचनं चेदमब्रवीत् यदा तु रामः स लक्ष्मणस्य प्रसह्य सीता कलुषा ह्य हृतः सकृत् समीक्षैव सुनिश्चितं तदा भजेत चेत् तं यमुनेव यमुनम् सर्वम् महाराज क्वचमप्रतिमं तव विधीयत स अस्माभिः आदापि न्यायेन राजकार्याणि यः करोति दश न, न सन्ताप्यते पश्चात् निश्चितार्थमती नृपः अनुपायेन कर्माणि विपरीतानि यानि च क्रियमाणानि दृश्यन्ति हविच्छम् हविं च प्रयतयिष् वै यत्पश्चात् पूर्वकार्याणि कर्माण्याभीचिकीर्षति पूर्वम् चापरिकार्याणि स्व न वेद नयनयौ चपलस्य सुकृत्येषु प्रसमीच्याधिकम् बलम् क्षीरमन्ये प्रबध्यन्ते कौञ्चस्य खम् विवाद्विजः स एदम् महदारब्धम् कार्यम् अप्रतिचिन्तितम् दृष्ट्या त्वाम् नावधिद्रामो विषम् मिश्रम् विवामिशम् तस्मात् त्वया समारब्धम् कर्म ह्यः प्रति मम् अपरे अहम् समीकरिष्यामि हत्वा शत्रुन्तव नघ अहम् उत्साहयिष्यामि शत्रुन्त एव निशाचर यदि चक्र विवसन्तौ यदि पावकमारुतो तावहम् योधयिष्यामि कुबेरे वरुणावपि गिरिमात्रय शरीरस्य महापरिघयोधिनः नर्गत शीघ्रंशस्य बिभीया द्वयी पुरन्दरे पुनर्मांस द्वितीयेन शरेण निहनिष्यति ततोऽहं तस्य पास्यामि रुधिरं काममाश्वसे वधेन वैदाशरथे सुखा वयम् जयं तवहतुमहं यतीष्ये हत्वा च रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथ मुख्यान् रमस्व कामं च वचाग्रवरुणिं गष्व कार्याणि तानि विज्वरे मया यमक्षयम् शिराय सीतावचकः भविष्यति इत्यार्थे श्रीमद् रामयणे बनकी अधिकवे युद्धकाण्डे द्वादश सर्ग श्रीसीता रामचन्द्रार्पणमस्तु